मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फिफ्टि फलश्रुतिवर्णनं श्रीगणेशाय नमः दक्ष उवाच योगिध्येयं गणेशस्य रूपं सर्वत्र सम्मतं ध्यातुम् त्वयोगिभिः शक्यं प्रत्यक्षं नात्रसंशयः संशयः कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमं वद तत्करणं विप्र संशयस्यापनुतये मुद्गल उवाच अयोगिनो गणेशानं पंचभूदमयं प्रभुं जानन्ति सर्वतुल्यम् तं देहधारिणमञ्जसा न तेषां हृदये दक्षरूपं योगमयं परम् शोभदे गणराजस्य योगाकारमपि स्फुटम् योगिनस्थं विशेषेण जानन्ति योगरूपिणं तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः समष्टिव्यष्टिरूपाख्यं ब्रह्मवेदे प्रकीर्तितं कुम्भस्थले गणेशस्य पश्यन्ति तन्मये च ते त्रिविधं विविधं दक्षत्रिनेत्रे सङ्गदम् महः पश्यन्ति योगिनस्तस्य गणेशस्य महात्मनः महाकारणरूपादु शुण्ठा तस्य प्रकीर्तिता बिन्दुकण्ठस्तथा दन्तः सोखं बोधरूपं गणेशस्य जठरं साङ्ख्यवाचकौ कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतं मायामोहयुतं ब्रह्म मोहहेनं मोह सुसाक्षिकं द्वौ पादौ गणराजस्य पश्यन्ति योगिह्नः किल संहाराख्यं च यद्ब्रह्म परश्युस्तस्य शोघनः नियन्त्राख्यं तथा दक्ष अङ्गुशश्च महात्मनः कमलं सृष्टिरूपाख्यं पाशं मोहमयं परं बन्धमोक्षात्मकं हन्द दुष्टनाशकरं मुदा अभयं भक्तिजातिभ्यो रक्षकं वाञ्छितप्रदं वरम् सकामकानां तु कामदं तं वदन्ति ते चिन्तामणिं मणिं तत्र सुक्रिमुक्तिप्रदं परम् अक्षीणतेजस्सं चन्द्रममृतं ब्रह्मनिश्चितं स्वानन्दाख्यं परं ब्रह्म तदेव नगरं प्रभोहो प्रभोः इक्षुसागररूपं च रसाणां ब्रह्मकथ्यदे पञ्चचित्तमयी बुद्धिस्तत्रैश्वर्यभ्रमात्मिका सिद्धिर्माये वदन्त्येव योगिनो योगभावदः मूषकं व्यापकाख्यं च परं पश्यन्ति वाहनं धर्मा धर्मौ गणेशस्योरपृष्ठे किल शुभाशुरो मणि ओष्च प्रकर्ति कलपाउंषण तस्म प्रजापाभ सुतौ तर्व्य प्रवर्तक याद्यम क्रीय लक्ष्यम तादृश्यम फलमश्नु इत्यादिविविधं तस्य ब्रह्माकारं नसंशयः संशयः सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते योगिनः सुखमुख्यास्तं ध्यायन्ते देहधारिणं ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् सगुणं कण्ठपर्यन्तं निर्गुणं गजवाचकं मस्तकं च तयोर्योगे योगं जानन्तिविघ्नपं योगिध्येयमदो वेदादिषु विधे रूपं गणपतेः प्रोक्तं योगाकारं स्वभावदः दक्ष उवाच मूषको वाहनं तस्य कथं बभूव विप्रप तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे मुद्गल उवाच मायया व्यापकं ब्रह्मां मोह्य नानाज्जनान् परान् भुङ्क्ते भोगांस्तत्कृतां तच्छुभाशुभविवर्जितम् मूषयस्ते ये समाच्यादो धातुः स एव मूषकः व्यापकश्चौरवत्सर्वान् भुङ् मोह्य हृदि स्थिदः व्यापकेन गजाननः प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थदः येतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकं नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकं य इदं श्रावये दक्षशृणुयाद्वा पठेन्नरः स सर्वसुखसंयुक्तो ते ब्रह्मणि गतो भवेद सदृशं किञ्चित् सर्वसिद्धिकरं परं यत्र साक्षाद्गणेश न कीर्त्यदे धूम्रवर्णकः यं यम यमिच्छदितं तं स लभेदनेन निश्चितं श्रवणेन न सन्देहो लेखयित्वा यस्तु पूजयेत् पुस्तकं नरः न तत्र राक्षसादिभ्यो भयं भवति कर्हिचिद भोगान् भुक्त्वा सविविधान् पुत्र पौत्रसुहृद्वृतः अन्ते स्वानन्दको भूत्वा गणेशे तन्मयो भवेद धर्मार्थकाममोक्षाणां गायकश्रवणेन च पठनेन न सन्देहखण्डोयं धूम्रवर्णकः तीर्थानि विविधान्येव तः कुर्यान्नरोत्तमः विविधं तत्फलं सद्य अस्य श्रवणतो लभेत् इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् विविद्धम् स लभेत् पुण्यमस्य श्रवणतो नरः बहुनात्र किमुक्तेन नानेन सदृशम् परम् किञ्चिन्नाविधेष्वेव साधनेषु प्रजापदे यत्र योगपदिः साक्षाद् वर्ण्यते धूम्रवर्णकः तेन तुल्यतां यान्ति विचारय महामदे सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकं धूम्रवर्णस्य सङ्क्षेपाद्यथामधिप्रमाणदः विस्तरेण शिवाद्याश्च वेदायोगिन एव च न समर्थाभवन्तीह तत्र कोकं प्रजापदे अधुना त्वं गणेशान् भज यत्नपरायणः अथ वा श्रोतुमिच्छा ते वदतां कथयाम्यहं सुद उवाच यवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे दक्षो कृष्णमनास्तं तु प्रणनाम कृताञ्जलिः धूम्रवर्णचरितं तु कथितं ते महामुने यथा दक्षायते नैव कथितं तादृशम् परं सर्वसिद्धिकरं चित्रम् नानाख्यानसमन्वितं श्रुतं त्वया महाभाग किं भूय श्रोतुमिच्छसि ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले अष्ट खंडे धूम्रवर्णचरि फलश्रुतिनाम पंचाश्त श्री गजाननाथ ये श्री अष्ट खंडस्ता ओ